श्रीगणेशाष्टकम् भजे म शक्तिबालकं सदा विनायकं विभुं भजेम शङ्करात्मजं गुहाग्रजं गणेश्वरम् भजेम मूषवाहनं नताञ्च विघ्ननाशकं व्रजेम चादिपूजितस्य चाश्रयं मुदा वहम् भजे शीर्षकं न मेमलम्बजाठरं तुवेम सर्पसूत्रिणं मदेभ दैत्यमर्दनम् पठेममुद्गलाख्यकं पुराणकं च सादरं श्रयेम गौरीनन्दनं कपित्थसारभक्षणम् भुजेम तत्प्रसादकं वराप्परूप क्ष्यकम् मधुरुवासिनम् परम् परात्परम् परोद्भवम् ससिद्धि बुद्धिभार्यकम् वराङ्कुशप्रधानकम् भजेमपाशधारिणम् पुनः पुनर्न नराकृतिम् गजाकृतिम् निराकृतिम् पराकृतिम् महाकृतिम् वराकृतिम् श्रयेम सुन्दराकृतिम् महागणेशमादरेण बालरूपिणम् प्रभुम् वरैकदन्तमाश्रयेम शुद्धबुद्धिदायकम् यजेम ब्रह्मण पतिम् कविम् कवीन्द्रपूजितम् हुवेम ज्येष्ठराजकम् प्रचण्डपापनाशकम् भजे मशूर्पकर्णकम् प्रपञ्चकारणम् गुरुम् विसर्गसर्गपालनम् क्षयेम चात्मरूपिणम् गकार पूर्वरूपका ह्यकार मध्यरूपका तथा सुनादसंविधानिका सुसंहिता च सन्धिता गणेशविद्यका हि सा स्मरे च सर्वदा विशेषर वर्णिनम् सुरक्तवाससं तथा सरक्तगन्धलेपनं सुरक्तपुष्पपूजितम् सुभक्तभक्तिवश्यकम् प्रमुक्तिशक्तिदायकम् भजे मधुर्वयाच तं प्र महाप्रभासु सन्निभम् अवत्त्वनन्तरूपकोऽपि सर्वतोऽखिलम् जगत् प्रपञ्च नाशभीषणोऽपि सज्जनान् सुरक्षतु चतुर्थी जातपूजितोऽपि सर्वदापि पातु नो विशेष दैन्यसंयुतान् अवत्व शेष पाठकान् विशेषदैन्यसंयुतानवत्वशेषपाठका हरिः ॐ श्रीगणेशार्पणमस्तु हरे राम